सर्वेभ्यः नमस्कारः अस्माकं पाठः अनुवर्तते नाविन्याय नाविन्यायपरिशीलनात्मकः पाठः इदानीम् अद्य तत्र अनुस्मारणात्मकं उपस्थापनं नीलाम्भगिन्याः वर्तते सा तत्र किं तत्र विषयाः नाम तर्टि फ़ोर् पेज् आरभ्य तर्टि सिक्स् पेज् पर्यन्तं तत्र तत्र समसामानादिकरणीयम् असामानादिकरणीयं नाम विषयता विषयता असामानकरणीयं विषयितानां सामानादिकरणीयम् इति तत्र अस्मिन् विषये तस्याः उपस्थापनं भवति अद्य तर्हि नीलं भगिनि कृपया नमस्ते महोदय सर्वेभ्यः नमस्कारः तत्र ज्ञानं तत् विषयता इति यः तत्र शीर्षकम् अस्ति तत्र पूर्वं वयं दृष्टवन्तः तत्र लोके ज्ञानेन एव पदार्थः निरूप्यते सो पदार्थे विषयता अस्ति ज्ञानेन विषय विषयः निरूप्यते अतः ज्ञाने विषयिता इति वदामि पदार्थे यः विषयता विषयता अस्ति सः त्रिविधा वयम् एतत् दृष्टवन्तः पूर्वे यदि वयं तत्र भूतलम् घटवत् इति एक आकारः अथवा स्वरूपं वदामः चेत् तत्र ज्ञानं किम् तत्र भूतलम् इति विशेष्य भवति घटः विशेषणम् तत्र भूतलघटं घटधयोर्मध्ये तत्र संयोगसम्बन्धः किमर्थं संयोगसम्बन्धः तत्र घटः भिन्नम् भूतलं भिन्नम् इति भिन्नभिन्नपदार्थाः सो so, यदि वयं तिसृणाम् एकम् एव नामकरणं कुर्मः चेत् तत्र भ्रमः जायते अतः न्यायशास्त्रे तत्र तेषां भिन्ननामकरणं भवति सो so, विशेषणे प्रकारता विशेष्ये विशेष्यता संयोगे संसर्गता इति तिस्राः विषयता तत्र भवति सो so, यथा विषयता ज्ञानेन निरूप्यन्ते तथा ते तत्र परस्परम् अपि निरूप्यन्ते सो so, त्रयाणाम् अधिकरणं समानं नास्ति इत्युक्ते तत्र घटे प्रकारता संयोगे संसर्गता भूतले विशेष्यता सो so, अत्र uh, किमपि uh, द्वयोर्मध्ये एकम् एव अधिकरणं नास्ति सो so, यथा घटत्व uh, तत्र घटत्वम् अपि प्रतियोगितायाः अधिकरणं तेषाम् अधिकरणं घटे एव अस्ति घटे एव वर्तते तथा प्रकारताया अपि च अधिकरणं uh, तथैव नास्ति समानं नास्ति परन्तु तत्र ज्ञाने विषयिता यः सम्बन्धः अस्ति तस्य एकम् एव अधिकरणम् इति तत्र मुख्यविषयः पुटसङ्ख्या थर्टि फैव् मध्ये तत्र यः मुख्यविषयः अस्ति सः अस्ति ज्ञाने यः विषयिता सम्बन्धः अस्ति तस्य एकम् एव अधिकरणं नास्ति एकम् एव अधिकरणम् अस्ति तत्र भिन्नभिन्न अधिकरणानि न सो तत्र तत्र लिखितमस्ति असमान अधिकरणं न सो इत्युक्ते समान अधिकरणमस्ति सो अस्मिन् विषये तत्र तत्र पुस्तके एकम् उदाहरणं दत्तमस्ति करदीपस्य पुरतः अङ्गुलीचतुष्टयं प्रसारयामः चेत् तत्र वयं जानीमः तत्र तिस्रः अर्चयः निर्गच्छति सो तत्र ये तिस्र अर्चयः निर्गच्छति ते एकम् अर्चः घटे पतति तस्य नाम अस्ति प्रकारता तस्य द्वितीय यः अर्चः अस्ति सः घटभूतलयोर्मध्ये यः संयोगसम्बन्धः अस्ति तं निरूपयति सः संसर्गता अस्ति सो तिस्री यः अर्चः अस्ति सः भूतले पतति तस्य किम् अस्ति नामकरणं विशेष्यता इति तत्र वदामः सो अत्र यः विषयिता विषय विषयतादीनाम् इत्युक्ते तिसॄणाम् असमान अधिकरणम् इति वयं द्रष्टुं शक्नुमः परन्तु एते त्रयाणां यः प्रतिबिम्बः यः रिफ्लेक्शन अस्ति सः प्रतिबिम्बाः कुत्र सः ए तत्र एकम् एव काञ्चे तत्र दृश्यते सो तेषाम् अधिकरणं प्रतिबिम्बः एव तत्र आ, करदीपे यः एकम् एव काचः अस्ति तत्र एव ते तेषाम् अधिकरणं भवति सो so, एषः प्रतिबिम्बः एव ज्ञाननिष्ठ विषयसम्बन्धः सो so, यस्य एकम् एव नामः अस्ति विषयिता सो so, एते त्रयः प्रतिबिम्बाः एकं ज्ञानं निष्ठ एव अनन्तरं तत्र तत्र किं लिखितमस्ति तत्र यथा तत्र अध्येयता अधिकरणतायोः निरूप्यनिरूपकभावः अस्ति तथैव विषयताविषयितायोः मध्ये तत्र निरूप्यनिरूपकभावः वर्तते सो so, uh, यदि तत्र एकः आकारः अस्ति भूतलं घटवत् अथवा घटः नीलरूपवान् सो so, तस्य विवरणम् अनेन रीत्या कथं भवेत् इति घट नीलूपा चेत तत्र uh, समवाय सबंध दृश्य से सो so, uh, तीलूपनिष्ठ प्रकारताकारिता आश्रय समवायनिष्ठ संसर्गता संसर्गीताश्रय भूतलनिष्ठ विशेष्यता विशेषता आश्रय जानम इति तत्र भवति तथैव भूतलं घट अभाववत् इति वदामः चेत् तत्र अभावपदार्थस्य निरूपणम् अपि तत्र सम्भवति सो so, uh, तत्र अनन्तरम् अन्तिमपरिच्छेदे तत्र किं लिखितमस्ति तत्र वयं जानीमः तत्र uh, स्वस्मिन् um, सर्वेपि यः लोके ये पदार्थाः तत्र सन्ति ते स्वस्मिन् uh, uh, तादात्म्यसम्बन्धेन एव तत्र वर्तते सो so, तेन सम्बन्धेन इत्युक्ते तदात्मसम्बन्धेन पदार्थः नास्ति इति वयं किं वदामः अभावः सो so, तादृशी अभावस्य नाम अस्ति अन्योन्य अभावः अथवा अन्यनेमः अन्यनामः अस्ति भेदः सो so, तत्र चतुर्थ अभावः महोदय अत्र यः अन्तिम वाक्यमस्ति ऐ डिड् नाट् गेट् द मीनिङ्ग् आफ़् देट् अन्तिम्बन्धस्य प्रतियोगिता अवच्छेदकत्वम् इष्टात् साधयिष्यते इति अल्लम् ऐ डि गेट् दे तत्र शक्यम अस्माभिः एतावता एव उक्तम् तत्र परन्तु तदात्मसम्बन्धस्य प्रतियोगिता अवच्छेदकत्वम् एतावता अस्माभिः तत्र प्रतियोगितायाः अवच्छेदकः कः भवति यथा घटत्वम् अथवा पटत्वम् इत्यादिकम् इति अस्माभिः ज्ञातम् अग्रे तु अवच्छेदक यदा उपरि विशेषं सविस्तरं यत्र निरूपणं भविष्यति तत्र पश्यामः न केवलं घटत्वं पटत्वं वा प्रतियोगितायाः अवच्छेदकः भवितुम् अवच्छेदकं भवितुम् अर्हति परन्तु स्वयमपि सम्बन्धः कदाचित् प्रतियोगितायाः अवच्छेदकम् अवच्छेदकः भवितुम् अर्हति परन्तु एतत् कथं सङ्गच्छते एतत् उपरिष्टात् नाम अग्रे नाम उपरि तत्र पेज् अदनु कुत्रचित् अग्रे इति एतत् सर्वं निरूपयिष्यते एतावता आम् भगिनि अत्यन्तं समीचीनं भवत्याः अत्यन्तं सुस्पष्टम् अत्यन्तं समीचीनं सर्वम् उपस्थापितम् सर्वम् अवगतम् इति अपि स्पष्टं ज्ञायते सम्यक् अत्यन्तं समीचीनं भगिनि धन्यवादः तर्हि किम् इदानीं बहवः नागताः इदानीं दृष्टं तत्र बोट्साप् मध्ये अपहर्णा भगिनी अपि लिखितवती सा अद्य आगन्तुं न प्रभवति भवतु इदानीम् अग्रे गच्छामः एतावता वस्तुतः अस्माभिः किञ्चित् अग्रे पतितं परन्तु तथा तथा हि इदानीं यतोहि त्रयः त्रयाः लक्षणदोषाः यथा त्रयाः त्रयः साक्षात् एव अस्माभिः कुत्रचित् मनसि उपस्थापिताः भविष्यन्ति तथा एव पुनरेकवारं पठामः इति मन्ये एतावता केवलं किं दृष्टं तत्र द्रव्यनिरूपणं प्रारब्धं द्रव्यनिरूपणसमये तत्र केचन विषयाः उपस्थापिताः सर्वप्रथमं उपक्रान्तं वाक्तं वाक्यं कन्दवची पृथिवी इति एतत् एतत् लक्षणवाक्यं भवति अत एव अस्मिन् लक्षणवाक्ये के के अंशाः तत्र किं किं तत्र ज्ञेयं भवति कस्मात् हेतोः एतद् एतद् वाक्यं लक्षणवाक्यं भवति अपि च लक्षणपदार्थः कः इत्यादिकं विषयं विषयं तत्र स्तरेण प्रवक्तुं सः इदानीं नूतनं विषयं प्रारभते नाम सः अस्माकम् आचार्यः देवदत्त ग्रन्थकर्ता अतः एव सः वदति इदानीम् अस्मिन् गन्धवती पृथ्वी इति अस्मिन् वाक्ये अंशद्वयं वर्तते एकः अंशः लक्ष्य अंशः अन्यः अंशः वर्तते लक्षण अंशः अथवा ये व्याकरणं पतितवन्तः किञ्चित् व्याकरणं पतितवन्तः तेपि तत्र जनेयुः व्याकरणे एतत् एतत् अंशद्वयं संज्ञी संज्ञा च इति अनेन अनयोः पदयोः व्यवह्रियते वदतु अर्कः तु समानं परन्तु अत्र लक्षणम् इति कश्चन कश्चन परिभाषिकं पदं दीयते इदानीं तत्र लक्ष्य लक्ष्यं नाम किं लक्षणं नाम किम् इति अयम् एव अस्माकम् अस्माकम् एतदेव अस्माकं प्रयोजनम् इदानीं वर्तते अस्मिन् परिच्छेदे सर्वप्रथमं लक्ष्यं नाम इति तत्र केवलं तत्र स्वैः सः वदति लक्ष्यं नाम यः विषयः ज्ञातुं ज्ञातुम् इष्यते यः विषयः नाम इदानीं यस्मिन् विषये अस्माकं जिज्ञासा अस्मिन् विषये अस्माकं ज्ञातुम् इच्छा वर्तते यथा देवदत्तः कः अथवा पृथिवी नाम का वतु नाम द्रव्यं नवद्रव्याणि तत्र उक्तानि तत्र द्रव्ये पृथिवी नाम किं पृथिवी नाम का इति यदा तादृशप्रश्नस्वरूपं भवति तत्र तत् प्रश्नस्वरूपम् आदाय ज्ञायते लक्ष्यं नाम यत् किज्ञासितं विषय जिज्ञासितः यः विषयः सः विषयः पृथिवी वर्तते अत एव एतत् एषा पृथिवी लक्ष्यम् इदानीं लक्षणं नाम किं तत्र लक्षणम् इति तत्र लोके यदा लक्षणं वदामः तत्र सामान्यतः लक्षणवाक्यम् इति अस्माभिः इति अस्माभिः तत्र अवगम्यते यत् तथा एव वस्तुतः तथा एव किं तत्र व्याकरणे इदानीं सञ्ज्ञी भवतु व्याकरणम् इदानीं मास्तु भवतु व्याकरणं तथापि लोके यदा वदामः लक्षणं किञ्चित् डिफिनेशन् इति तथा एव सामान्यतः अस्माभिः अवगम्यते परन्तु इदानीं परिभाषा परिभाषिकं तत्र परिभाषिक परिभाषिकायां भाषायां लक्षणं नाम साक्षात् यः विसदृशः धर्मः यः विसदृशः गुणः भवतु धर्मः वर्तते यः धर्मः लक्ष्यं लक्ष्यं विषयं पृथक् करोति अन्येभ्यः विषयेभ्यः पृथक् करोचि सः एव धर्मः लक्षणम् इति उच्यते यथा अस्मिन् लक्षणवाक्ये गन्धवची पृथिवी पृथिवी साक्षात् लक्ष्यम् गन्धवची अथवा क्षण गन्धः नाम यः धर्मः पृथिवीं पृथक् करोति अन्येभ्यः द्रव्येभ्यः सः धर्मः कः इति चेत् गन्धः सोऽयं गन्धरूपकः गन्धात्मकः धर्मः सोऽयं धर्मः एव लक्षणं भवति सम्यक् इदानीं तत्र सामान्यतः सः अपि वदति यत् लक्षणं तस्य द्वा एव द्वा तत्र तस्य कश्चन अपेक्षा वर्तते नाम यत्र यथा कश्चन समीचीनः लक्षणः भवति तथा तस्या धर्मस्य तत्र क काचन अपेक्षा वर्तते अतः तत् तत् तस्य धर्मस्य स्वास्यापि कश्चन किं विशेषः अथवा कश्चन धर्मः भवतः विशेषः इति वदामः कश्चन विशेषः अपेक्षितः भवति स यां विशेषः कः द्वौ विशेषौ इति चेत् प्रथमतः यः विसादृशः धर्मः यः लक्षणभूतः धर्मः सः सर्वेषु लक्ष्येषु भवितुम् अर्हति सः सर्वेषु लक्ष्येषु भवति अतः यदि इदानीं पुरुषस्य अथवा सङ्गणकस्य लक्षणं द तर्हि सङ्गणकं कृष्णम् इति वदामः चेत् सङ्गणकस्य लक्षणं कृष्णरूपं वदामः चेत् एतद् लक्षणं सर्वेषु सर्वेषु सङ्गणकेषु सर्वेषु लक्ष्येषु नैव उपस् नैव उपस्थीयते केचन कानिचन सङ्गणकानि कृष्णानि भवतु नाम परन्तु कानिचन तु भवतु तत्र अन्य अन्यरूप अन्यवर् अन्यवर्ण अन्यवर्णकानि अपि भवन्ति एव अतः एव स्पष्टम् अवगम्यते इदानीं इदं लक्षणं समीचीनं नास्ति अतः एव किञ्चन लक्षणं परिशीलनीयं वर्तते अन्विष्यं वर्तते यत् सर्वेषु एव लक्ष्येषु अस्ति इति एकं द्वितीयं वर्तते न भवति यतोहि यदि तत्र भवतु किं यदि पुरुषस्य अथवा पुरुषस्य अथवा नृणां लक्षणं देयम् अथवा पुरुषाणां लक्षणं देयम् इति चेत् इदानीं चेत सचेतनत्वं पुरुष् पुरुषाणां लक्षणम् अस्ति इति वदामश्चेत् सोपि न सङ्गच्छति यतो हि सचेतनत्वं नाम सोपि न सङ्गच्छति किमर्थं यतो हि भवतु नाम सर्वे पुरुषाः सचेतनाः एव सन्ति तथापि सचेतनत्वम् अथवा अयं धर्मः अन्येषु अपि अस्ति यथा भवतु पशु प पशूनामपि सचेतनत्वम् अस्ति अपि च ईश्वरस्य अपि सचेतनत्वम् अस्ति भवतु अन्येपि सन्ति पदार्थाः अस्मिन् लोके येषु सचे येषु चेतनत्वम् अथवा सचेतनत्वम् इति अयं धर्मः प्रवर्तते अतः एव अयं धार्मः अपि असमि लक्षणत्वेन स्वीकर्तुम् अ आ किम् अपर्याप्तः असमीचीनः अ अ असिद्धः वर्तते यतोहि द्वितीयः यः अपेक्षितः अंशः वर्तते नाम आलक्ष्येषु अभावः सोऽयं विशेषः सोऽयं धर्मः अत्र न प्राप्यते इदानीम् एतत् अयम् एतत् अंशद्वयं यथा लौकिक लौकिक लौकिकचिन्तनेन यथा उपस्थापितम् इदानीं परिभाषिकेन परिभाषिकरीत्या सोयाम् एव अथवा सो तद् इदम् एव लक्ष तदिदाम् एव अंशद्वयं पुनार्कवारम् उपस्थाप्यते इदानीम् अत्र अस्मिन् विषये तत्र लक्षणदोष लक्षणदोषाः अस्माभिः इदानीं परिशीलनीयाः सन्ति अव्याप्सिदोषः अतिव्याप्तिदोषः असम्भवदोषश्च प्रथमः दोषः यद्यपि पतितः तथापि इदानीं स्पष्टीकरणार्थं सम्यक् अवगमनार्थं च पुनर्कवारं पतामः कृपया उपेन्द्रमहोदय आरम्भं करो अथवा उपेन्द्रमहोदय कृपया आरम्भं करोतु तत्र पेज् तर्टि तर्टि किं तर्टि एय् वर्तते अव्याप्तिदोषः नमस्ते नमस्ते आचार्यमस्ते सर्वेभ्यः अव्याप्तिदो अव्याप् दोषः महोदय भवानेव एत अमुं परिचयं गते वर्गे न न भवतु कृपया पठतु क्षम्यतां क्षम्यतां कृपया पठतु द्वितीय द्वितीयो द्वितीयो दोषः अतिव्याप्तिः एषः दोषः तस्मिन् महोदय क्षम्यतां क्षम्यतां क्षम्यताम् अव्याप्ति दोषमेव पठामः प्रथमां दोषमेव पठामः प्रथमं दोषम् अहमेव पठितवान् अस्मि भवान् एव पठितवान् तर्हि महोदय भवान् अनन्तरं द्वितीयं दोषं पततु परन्तु प्रथमं दोषम् अन्यः कोऽपि पततु तत्र महोदय पतति वा यतो अद्य भवतां सम्यक् श्रूयते इति अस्मि आचार्ये पतति इच्छति पतितुमिच्छति वा महोदय अव्याप्तिदोष कृपया अव्याप्तिदोष पेज् थर्टि एय्ट् अत्रिंशत् mm. mm. अस्तु mm. अव्याप्तिदोषः कश्चित् पदार्थः न सर्वेषु लक्ष्येषु वर्तते किन्तु केषुचिदेव सः अव्याप्तः इत्युच्यते यथा गौः श्वेतरूपं रक्षणमिति केनचित् उक्तम् इदं श्वेतरूपम् गोजातीयां श्वेतकवि वर्तते कृष्णगवि नास्ति इति तत्र अव्याप्तिरिति लक्षणदोषः भवति प्रकृति प्रकृतिचित्रे आहत्य अष्टौ गावः सन्ति तासु सर्वासु गोत्वमस्ति गोत्वमस्ति तत्र प्रथमा द्वितीया चतुर्धा षष्टि च श्वेतरूपवती परन्तु तृतीयां पञ्चमां सप्तमाम् अष्टाभ्यां च कवि श्वेतरूपं नास्ति अतः गोत्रवस्तु कासुचित् श्वेतरूपस्य अभावः वर्धते अतः श्वेतरूपं न गोलक्षणं किन्तु अव्याप्तिदोषग्रस्तं लक्षणाभासः अत्र गुत्वं समानमस्ति परन्तु वर्णं सर्वत्र न भवति केचन अन्यवर्णाः गौभिः सन्ति तत्कारणेन अव्याप्तिदोष दट् मीन्स् पर्याप्तं सर्वे जातिलक्षणं नास्ति जातिलक्षणम् अन्यम् अस्ति किञ्चित् वर्णभेदः इत्यादि ऐ मीन् प्रधान प्रधानलक्षणविहाय भेदः अस्ति तेन अव्याप्तिदोषेण इति कथयन्ति अत्र चित्रस्य गौ गोत्वं श्वेतत्वम् एकं प्रथम गौ श्वेतत्वम् अस्मि द्वितीये श्वेतरूपम् अस्ति गोत्वमस्ति गोत्वमस् अपि अस्ति तृतीयभागे रक्तरूपम् अस्ति गोत्वमपि अस्ति चतुर्थभागे गौः श्वेतरूपं पञ्चमभागे गौ रक्तरूपम् रक्तरूपेण अस्ति अपि अस्ति षष्टमभागे श्वेतरूपमस्ति गौ गौत्वम् अस् अपि अस्ति इह रूपेण पश्य पश्यामि चेत् स्वल्प शु, केवलं वर्णस्य विभागं न मिलति hmm. तेन कारणेन अव्याप्तिदोष पर्याप्त जाति समस्तम् एकरूपेण न रहति किञ्चित् किञ्चित् भिन्नम् अपि भवति चेत् अव्याप्तिदोष इत्युच्यते चे आम् समीचीनं महोदय तदेव सम्यक् सम्यक् सा, सर्वम् उक्तं भवता तदेव अत एव अपि च यथौ प्राक्तने यथा प्राक्तने वर्गे अपि अस्माभिषये दृष्टम् तत्र किञ्चित् तत्र किं तत् ज्ञेयम् अस्ति अथवा अनुस्मरणीयं वर्तते इदानीम् अव्याप्तिः इति चेत् वदामश्चेत् अव्याप्तिः साक्षात् दोषस्य नाम इदानीं दोषः दोषः यः यः वर्तते तस्य नाम वर्तते अव्याप्तिः इदानीं यत् दुष्टं लक्षणं तथा यथा इदानीं श्वेतरूपत्वं तद् भवतः सम्यक् केवलं पुनर्कवरं यद् दुष्टं लक्षणं तद् तद् लक्षणम् अव्याप्तम् इति उच्यते अपि च यदि तत्र अव्याप्ति दोषग्रस्तं यत् लक्षणं नाम श्वेतरूपं तत् साक्षात् लक्षणं न परन्तु लक्षणाभासः इदानीम् अव्याप्तं यत् अव्याप्तम् श्वेतरूपे यत् तत् लक्षणाभासः अत एव इदानीमेतत् किं परिभाषिकं पद त्रीणि परिभाषिकानि पदानि तत्र सम्यक् अनुस्मर्तव्यानि अव्याप्तिः इति दोषस्य नाम लक्षणं तत्र यत् दुष्टं लक्षणं तत् लक्षणाभासः इति उच्यते इति एकम् अपि च इदानीम् अत्र विशेषम् अयं लक्षणम् अयम् अयं धर्मः अव्याप्तः अथवा इदं लक्षणम् अव्याप्तम् इति वदामः आं सम्यक् समीचीनं महोदयेन समीचीनम् एतत् सर्वं प्रतिपादितं धन्यवादः इदानीम् अतः अग्रे अव्याप्तिः द्वितीयः तत्र उपेन्द्रमहोदय कृपया नमस्ते आचार्य अव्याप्तिर्दोषः द्वितीयो दोषः अतिव्या अतिव्याप्तिर्दोषः क्षम्यताम् आचार्यजी नमस्ते अतिव्याप्तिर्दोषः द्वितीयो दोषः अतिव्याप्तिः एषः दोषः तस्मिन् भवति यः पदार्थः लक्ष्ये भवति अलक्ष्ये अपि भवति यथा गोहु शृङ्गं लक्षणम् उक्तं चेत् तत् लक्ष्यासु गोषु वर्तते तथा एव अलक्ष्येषु अजादिषु अपि वर्तते प्रकृतचित्रे शृङ्गं यद्यपि सर्वासु गोषु वर्तते परन्तु अलक्ष्ये अजादौ अपि वर्तते इति तत्र अतिव्याप्तिः दोषः भवति अतः न इदं लक्षणं किन्तु लक्षण द्वितीयः दोषः दुष्टलक्षणं अतिव्याप्तम् अतिव्याप्तम् एषः दोषः तस्मिन् भवति यः पदार्थः लक्ष्ये भवति एतद् दोषः लक्ष्ये भवति अलक्ष्ये अपि भवति उदाहरणार्थं गोः शृङ्गं यदि लक्षणम् इति उच्यते चेत् सर्वा सर्वासु गोषु लक्ष्यं वर्तते तथा एव लक्ष्येषु अजादिषु अपि शृङ्गं लक्षणं दर्शय दर्शितं भवति प्र प्रकृतिचित्रे चित्रे, चित्रे शृङ्गं यद्यपि सर्वासु गोषु वर्तते परन्तु अलक्ष्ये अजादौ अपि वर्तते तस्मात् कारणेन तत्र अतिव्याप्तिदोषः भवति चित्रे फोर्टि सिक्स् चित्रे गोः गोत्वं वर्तते शृङ्गमपि वर्तते तथा एव सर्वासु गोषु शृङ्गं वर्तते तस्मात् शृङ्गं लक्षणं भवति इति आभासवत् किमर्थम् अलक्ष्ये <coughs> अपि शृङ्गम् अजः महिषी मृगः मेषः एतानि सर्वाणि एतेषु सर्वेषु एतेषु सर्वेषु एनिमल् जन्तुषु अपि दृश्यते लक्षियम गोहु अलक्षियम अत्र सर्वेषु तेषु अपि एतत् शृङ्गं दर्शनं करणं करणं शक्यते लक्षणविरुद्धं भवति लक्ष्ये विद्यमानः कश्चित् विलक्षणपदार्थः अत्र ये नास्ति विलक्षणम् अस्ति <coughs> सर्वासु जन्तु जन्तुषु वर्तते तस्मात् कारणेन एतत् लक्षण आभासः अत्र व्याप्तिः अतिरिक्तः भवति तस्मात् करणे करणेन अतिव्याप्तिदोषः भवति एतत् अथ एव आचार्य आम, आमां तस्मात् कारणेन नास्ति एतत् लक्षण आभास हा महोदय भवान् किं चिन्तयति एतत् सम्यक् समीचीनं उक्तं तर्हि भवान् किं चिन्तयति इदानीं यः अव्याप्तिदोषस्य उदाहरणं दत्तं नाम किम् अव्याप्तं लक्षणं यत् आसीत् तत्र श्वेतरूपं लक्षणम् इति चेत् तर्हि एतत् लक्षणम् अव्याप्तम् इति सम्यक् परन्तु अतिव्याप्तमपि स्यात् न वा इति किं चिन्तयति महोदय अव्याप्ति अतिव्याप्तिः अपि अतिव्याप्ति अस्ति अस्ति लक्ष्येऽपि लक्ष्ये अपि वर्तते अलक्ष्ये अपि वर्णं वर्तते तस्मात् कारणेन एतत् लक्षणाभासः एव आचार्य वर्णं वर्णं यदि मन्ये तत्र अव्याप्तिदोषः अपि अस्ति अतिव्याप्तिदोषः अपि वर्तते आचार्यजी आम् आं आम। तदेव सम्यक् तदेव अतः एव इदानीं सम्यक् सर्वं सम्यक् भवता प्रतिपादितं सम्यक् अपि अवगतम् इदानीं यः यत् लक्षणं यः विसदृश द्विसदृशः इव धर्मः यः दत्तः लक्षणेन यः धर्मः अन्येषु अपि विजातीयेषु अस्ति नाम तत्र द्वितीयः यत्र न प्राप्तः सः एतादृशः एतादृशः दार्श एतादृशः एतादृशः धर्मः लाक्षणाभासः उच्यते अपि च सः अव्याप् अतिव्याक्षणम् अतिव्याप्तः इति उच्यते इत्येवम् अपि च सामान्यतः ये धर्माः तत्र अव्याप्ते ये उदाहरणत्वेन जीयन्ते ते सामान्यतः अतिव्याप्ताः अपि सन्ति इति मन्ये तथापि मया कदाचित् एकः एकम् उदाहरणं श्रुतं तत्र तथा नास्ति इति मन्ये इदानीं ब्राह्मणः अथवा ब्राह्म ब्राह्म ब्राह्मणानां लक्षणं जीयते चेत् तत्र शिखा सूत्रवान् शिखा सूत्रवान् ब्राह्मणः इदानीं नाम शिखा वा शिखा तत्र ज्ञायते वा तदा एव सम्यक् अपि च सूत्र तत्र उपन्यास उपन्याससमये उपनयनसमयेमानं सूत्रं यत् एतत् उभयं ब्राह्मणस्य लक्षणम् इति तत्र सम्यक् इति भाति तथापि एतद् लक्षणम् अव्याप्तम् किमार्थम् यतोहि संन्यासिनी ब्राह्मणे एतद् लक्षणम् अव्याप्तं यदि ब्राह्मणः सन्यासी भविष्यति अथवा भवति सः यद्यपि ब्राह्मण जाच्यापि ब्राह्मणः तथापि सः शिखां सूत्रां च त्यजति अतः परन्तु अस्य अस्य उदाहरणस्य तत्र विशेषः कः तत्र अतिव्याप्तिः दोषः नास्ति साक्षात् नास्ति यतो हि श्वेतरूपत्वं स्वीकुर्मः चेत् अपि च अतिव्याप्तिदोषः उभयमपि प्राप्यते अस्य वतः उभयस्यापि उदाहरणं भवितुम् अर्हति परन्तु एतत् शिखासूत्रवान् नाम शिखासूत्र च ब्रह्मणस्य लक्षणं भवति चेत् तत्र अतिव्याप्तिः नास्ति इति मन्ये परन्तु अव्याप्तिः अस्ति एव कुत्र सन्यासिनी ब्राह्मणी आम् आम् सम्यक् तर्हि परन्तु एतत् वर्णानां चातुर्वर्णानां ब्राह्मणक्षत्रिय वैश्य त्रयाणामपि सूत्रं वर्तते शिखा न वर्तते इति मन्ये सूत्रं तु सूत्रम् उभय सूत्रं तु त्रिषु शिखा तु ब्रह्मणेषु एव तस्मात् कारणेन विलक्षणधर्मः भवति इति तदेव तदेव तदेव तदेव विलक्षणधर्म भवति परं तु सः धर्मः विलक्षण इव नाम सतः सः लक्षणभासः यतोहि संन्यासिनि सन्न्यासिनि ब्रह्मणे ब्राह्म ब्राह्मणे अयं लक्षण इदं लक्षणं न सङ्गच्छते भवतु तत्र इदानीं कश्चन तत्र कदाचित् विचारः जायते इदानीं संन्याससंन्याससंन्यास संस्थायां ब्राह्मणः संन्याससंस्थायां ब्राह्मणः सः अपि ब्राह्मणः न वा भवतु इति अन्यः विचारः इदानीं सः ब्राह्मणः इति स्वीकुर्मः चेत् स ब्राह्मणः एव इति स्वीकुर्मः चेत् तर्हि तादृशे ब्राह्मणे अव्याप्त एतद् लक्षणम् अव्याप्तं भविष्यति ओके समीचीनम् इदानीं तृतीयः असम्भवः तत्र उपरि तत्र कः नरसिंहमहोदय च मन्ये धन्यवादाः नमस्ते धन्यवादः नरसिंहमहोदय असम्भदोषः क्व अस्ति अतः भवान् सः गतवान् इदानीं विषयामि तर्हि पुष्पा भगिनि नमस्कारः पतति वा किञ्चित् आम महोदय असम्भव दोषः तृतीयः दोषः संभवः यः धर्मः न कस्मिन् अपि लक्ष्ये भवति तस्मिन् आयाति तथा यथा केशराः सिंहजटाः गोः लक्षणं लक्षणम् इति लक्षणम् इति तन् तत्र गोजातीयां कस्याम् अपि गवि सः धर्मः नास्ति इति तस्मिन् असम्भवः दोषः हा पूर्णतया पठित्वा महोदय रूप धर्मः गवी वर्तते अतः नासम्भवः दोषः न असम्भवः दोषः दोषु अस्ति इति न व्याप् न अव्याप्तिदोषः एवम् अलक्ष्येषु अजम् अजं हि षु एकनिमिषं महिषा अजम् अज महिषादिषु न वर्तते इति न अतिव्याप्ति व्याप्तिः दोषः इति निर्दिष्टम् <coughs> सास्नावत्वं गोः लक्षणम् इति उच्यते um, एतद् तृतीयदोषं दोषं विवर्णोति तत्र एक तत तत् असम्भवः के क इति वदनेन सिंहजटाः गोः नास् नास्ति यथा केशराः सिंहजताः गोः केशराः केशराः किं यथा केशराः केशरः एव सिंहजाताः नाम नाम सिंहजताः केशरः केशराः तु सिंहस्य नाम ए एक नाम अस्ति केशरः अत्र किं सिंहजाटा एव तत्र किं आङ्ग्लभाषान् मैन् मैन् हा सिंह सिंहजटाः अत्र विवरणं कृतं तदेव तदेव केशर नाम सिंहजटा हाहजटाः अत्र गोजाति तु तस्य धर्मः तद् नास्ति तथैव एतत् असम्भवः असम्भवदोषः असम्भवः दोषः अस्तु असम्भवदोषः तद् पूर्णतया उक्तं स्नास्ता स्नास्ना रूपधर्मः गवी गवी वर्तते mm -hmm. तत्तु अजं महिषा महिषादिषु न वर्तते तत्कारणात् एतत्तु स्ना स्नासनात् सर्वासु गो अव्याप्तिदोषः नास्ति परन्तु अजमहि अव्याप्तिदोषः नास्ति न अव्याप्तिदोषः तत्कारणात् अलक्ष्येषु तत्तु अजं महिषा एतादीषु एतादिषु न वर्तते एतद् एतद् स्ना स्नासनं न वर्तते तत्कारणात् तत्तु अतिव्याप्तिदोषः न अपि अतिव्याप्तिदोषः इति वदति तत्र नास्ति तत्र स्नासनः नास्ति तद् स्नासना धर्मः नास्ति तत्कारणात् अत्र अतिव्याप्तिदोषः इति निर्दिष्टं शासनावत्वं गोः एव लक्षणम् इति उच्यते सम्यक् वा सम्यक् सम्यक् समीचीनं सम्यक् अत एव तत्र वस्तुतः अंशद्वयम् इव तत्र प्रासातं भवत्याः भवत्याः परिच्छेद परिच्छेदद्वयमपि अस्ति इदानीं प्रथमः अंशः असम्भवदोषः असम्भवदोषः अपि च अस तत्र असम्भूतं वा अथवा असम्भवी अपि असम्भवी लक्षणम् लक्षणं तथापि उभयं तत्र उभयम् एव असम्भवदोषः कस्य लक्षणस्य प्रप्यते इति तत्र साक्षात् अयम् इदं लक्षणम् इदम् अयं धर्मः नास्त्ये लक्ष्ये एव नास्ति यतः केश केश यदि गो गो गो गोः लक्षणत्वेन दीयन्ते तत्र दीयते अयं धर्मः केशर केशर केशरवची गौः केशरवान् गौः इति वदामश्चेत् तथा अयम् तत्र अयं धर्मः इदं लक्षणं सा साक्षात् न सङ्गच्छते यतोहि नास्ति एव अस्मिन् लोके एकापि यस्याः केशराः सन्ति अत एव इदं लक्षणम् असम्भूतम् इदं लक्षणं लक्षणाभासः इदं लक्षणम् असम्भवदोषग्रस्तम् इति उच्यते इति एकम् अपि च इदानीं तदनन्तरं सः पुनरेकवारं यत् प्राक् सः सना किं तथा केवलं सस्ना सना सनारूपधर्मः अथवा सस्नावची गौः इति यदि तथा लक्षणं दद्मः तर्हि तस्य लक्षणस्य नाम सस्नावत्वम् अथवा सस्नारूपधर्मस्य अस्य लक्षणस्य इदानीं पुनारकवारं परीक्षा क्रियते इदानीं पश्यामः इदं लक्षणं समीचीनं न इदानीं समीचीनं लक्षणं कीदृशम् इति चेत् तत्र न्याये उच्यते इदानीं दोषत्रयं दोषत्रयरहितं लक्षणं दोषत्रयं रहितं यत् तत् समीचीनं लक्षणं वर्तते नाम अव्याप्तिदोषः यत् यस्य नास्ति अव्याप् अतिव्याप्तिदोषः यस्य नास्ति अपि च असम्भवदोषः यस्य नास्ति तत् लक्षणम् एव इति उच्यते इदानीम् अस्य एव अत एव सस्नारूपधारणस्य सः परिशीलनं सः परीक्षां करोति नाम अस्य सस्नारूपधारणस्य असम्भवदोषः नास्ति यतोहि गोषु अस्ति एव अतिव्या अव्याप्तिदोषः नास्ति यतो यतोहि सर्वेषु गोषु अस्ति अपि च अतिव्याप्ति अपि नास्ति यतोहि केवलं गोषु वर्तते अन्येषु अन्येषु प्राणिषु नास्ति प्राणिषु वा अन्येषु पदार्थेषु नास्ति अतः एव सस्ना सस्नावत्वं यदि गोः अथवा गोनां गो यदि गोः लक्षणं दीयते चेत् एतद् लक्षणं दोषत्रयविरहितत्व विरहितत्वेन समीचीनं सम्यक् लक्षणम् एव इति स्वीक्रियते परन्तु वस्तुतः चि तदेव उक्तवती किमर्थं अहमपि सां न जानामि अपि च तत्र प्राक् तत्र प्रदत्तं परन्तु किञ्चित् तत्र अन्ये गतं तथापि सर्वेषाम् इदानीं त्रीणां तत्रापि परिभाषिकपदैः कश्चन तत्र किं लक्षणवाक्यमपि दीयते इदानीम् अव्याप्चिदोषः अव्याप्सिदोषस्य लक्षणं वर्तते लक्ष्य एकदेशे लक्ष्य एकदेशे आवृत्ति अवृत्तित्वम् अथवा लक्ष्य एकदेशे अभावः अथवा अवृच्छित्वम् इति नाम लक्ष्य एकदेशे कुत्रचित् लक्ष्ये अस्ति परन्तु लक्ष्यस्य एकदेशे लक्ष्यस्य एक एकस्मिन् अंशे नास्ति अतः एव लक्ष्य एकदेशे अवृच्छित्वम् इति तत्र अव्याप्चिदोषस्य लक्षणम् अतिव्याप्चिदोषस्य लक्षणं वर्तते अलक्ष्यवृत्तित्वम् अलक्ष्यवृत्तित्वं नाम अलक्ष्ये यत् वर्तते यः लक्षण अथवा यः वर्तते धर्मः सः धार्मः अतिव्याप् अतिव्याप्तः नाम अलक्ष्यवृत्तित्वम् अलक्ष्यवृत्तित्वम् इति अतिव्याप्ति अतिव्याप्ति दोषः लक्षणम् अपि च लक्ष्यसमाक्ष्यसमान किं लक्ष्य तत्र किम् असम्भव दोषस्य लक्ष्यस्य लक्ष्यस्य अवृचित्वं वा अथवा लक्ष्य लक्ष्यसामान्यावृचित्वं किमपि तथा क्षणसमये लक्ष्यसामान्याभावः लक्ष्यसामान्यावृचित्वं स्यात् इति मन्ये लक्ष्यसामान्यावृचित्वं नाम समा लाक्ष्ये तत्र लाक्ष्ये समान्यावृ सामान्याभावः यदा प्राक् अस्माभिः उक्तः सामान्याभावः केवलं भूतलं नास्ति इति एतादृशः अभावः नाम प्राक् अभावः भावः तादृशाभावः न परन्तु सामान्याभावः सामान्यावृचित्वं लक्ष्यसामान्यावृचित्वम् इति असम्भवदोषस्य लक्षणं यथा केशराः केशराणां गवी सामान्याभावः सामान्यावृचित्वम् अस्ति अतः एव एतत् लक्षणं असम्भु असम्भवी अथवा असम्भूतम् अथवा असम्भवदोषग्रस्तं वर्तते भवतु सम्यक् तर्हि अग्रे गच्छामः इति मन्ये एतावता प्रश्नाः सन्ति चेत् पृच्छन्तु अन्यथा अग्रे वक्तुं शक्नुमः असम् असम्भवत्वं असम्भवत्वं वा शक्नुमः आम् असम्भवत्वम् असम्भव असम्भवत्वं लक्ष्यसामान्याचिवृचित्वम् असम्भवत्वम् इति तथा इदानीं वक्तुं शक्नुमः अथवा लक्ष्यसामान्यावृचित्वम् असम्भवदोषस्य लक्षणम् इति तथा वक्तुं शक्नुमः लक्ष्यसामान्यावृचित्वम् असम्भवत्वम् इति तथा सङ्गच्छति ओके अत एव इदानीं अत एव इदानीं दोष एतत् दोषत्रयारहितत्वम् लक्षणत्वं यथा दोषत्रयं दोषत्रयं नास्ति तत् लक्षणम् इति सः अग्रे अपि वदति कुत्रचित् इति मन्ये भवतु इदानीं नीच्यत्वा नीच्यत्वादिभागः क्षम्यतामाचार्यमाचार्योषः नाम दुष्टलक्षणम् इति लक्षण लक्षणं न भवति लक्षण आवासः इति द्वयं वाक्यम् उक्तवान् खलु आचार्यजी इदानीं यः धार्मः असमिचिन, तत्र लक्षणत्वेन स्वीकर्तुम् असमि असम्भूतः किम् अपर्याप्तः असिद्धः न समीचीनः सः धार्मः लक्षणं नास्ति परन्तु सः धर्मः लक्षणाभासः इति उच्यते सर्वं लक्षण आभास एव परन्तु इदानीं तत्र भाषायां परिभाषिकभाषायां कदाम् एतदुच्यते इदानीं किं श्वेतरूपं स्वीकुर्मः श्वेतरूपम् अथवा सस्ना सस्ना सर्वप्रथमं सस्ना सस्नावत्वम् इदानीं सस्नावत्वम् अयं धार्मः गोः लक्षणम् अस्ति ओके अस्मिन् धर्मे दोषत्रयं नास्ति इति एकम् इदानीं श्वेतरूपम् इति यदि तादृशं लक्षणं स्वीकुर्मः अथवा एतादृशं धार्मं स्वीकुर्मः एतत् अयं धार्मः किम् अव्याप्तः अव्याप्तः अयं धर्मः अव्याप्तः अथवा एतद् लक्षणम् अव्याप्तम् इति उच्य इति उच्यते यदि एतद् लक्षणम् अव्याप्तम् अस्ति तर्हि श्वेतरूपं लक्षणं नास्ति परन्तु श्वेतरूपं लक्षणाभासः अपि च अस्मिन् लक्षणे अभासे किम् अस्ति अस्मिन् लक्ष्य अस्मिन् अव्याप्ते श्वेतरूपे लक्षणे लक्षणाभासे अव्याप्तिदोषः अस्ति अव्याप्तिदोषः साक्षात् श्वेतरूपस्य तत्र धार्मः इति तथापि वक्तुं शक्यते यदि श्वेतरूपस्य अव्याप्तिदोषः अतिव्याप्तिदोषः भवतु श्वेतरूपस्य न यदि कस्यचिद्धार्मस्य दोषत्रयं नास्ति अथवा यदि कश्चन धार्मः साक्षात् अव्याप्तः अतिव्याप्तः असम्भवी वा न भवति तर्हि तादृशः धार्मः लक्षणं समीचीनं लक्षणम् इति वदामः अत्र अत्र लक्षणम् अधिकरणं भवति आचार्यजी तथा तथा लक्षणम् अधिकरणं कस्य दोषस्य हितत्वं लोषरहितत्वं भवति तदेव तदेव सम्यक् समीची तदेव समीचीनं लाक्षणस्य लाक्षणं देयं चेत् तर्हि दोषत्रयरहितत्वं लक्षणस्य लक्षणत्वं लक्षणत्वं दोषत्रयरहितत्वं लक्षणत्वं अथवा दोषत्रयरहितत्वं लक्षणस्य लक्षणं लक्षणस्य लक्षणं लक्षणपदार्थस्य लक्षणं लक्षणे दोत दोषसहितं यदि भवति लक्षण आवासे एव तत् हा तदेव धन्यवादाचार्यमस्ते आचार्य तर्हि तर्हि तर्हि तर्हि तर्हि तर्हि गीचत्वा गीचत्वा जीवा किं दर्शय महोदय तत्र कश्चन दोषः इति मन्ये आसीत् महोदय नित्यत्वादिभागः नित्यत्वादिभागः अनुसरामः प्रकृतमनुसरामः गन्ध पृथिव्या लक्षणम् इत्युक्तं लक्षणज्ञानेन सामान्यतः पृथिव्यां जातायां विशेषजिज्ञासा भवति तत्र उक्तं नित्यनित्या च नित्यापरमाणरूपः नित्यकार्यरूप इति यस्य उत्पत्तेनापि अर्थात् प्रागभावो नास् न भवति एवं ध्वंसोपि न भवति सः नित्यः यथा आकाशः न हि तस्य प्रागभावः द्वंसो वा वर्तते यस्य प्रागभावप्रतियोगित्वं द्वंसप्रतियोगित्वं च सः अनित्यः अनित्यपृथ्वीरूपस्य घटस्य प्रागवोऽपि भवति ध्वंस ध्वंसोपि भवति अतः प्रागभावप्रतियोगित्वं घटे ध्वंसप्रतियोगित्वं द्वंसप्रतियोगित्वमपि घटे इयमेव घटे विद्यमान अनित्व विद्यमानम् अनित्यत्वं एवं अनित्यत्वे ज्ञाने तदाभावनित्यत्वं गगनादौ ज्ञातुं शक्यते प्रागभाव प्रतियोगिता प्रतियोगित्वस्य अभावः ध्वंसमिता ध्वंसप्रतियोगित प्रतियोगित्वस्य च अभावः गगने अस्ति <laughs> इदम् अभावद्वयमेव नित्यत्वं अभावद्वयमेव नित्यत्वं तद्युक् तद्युक्ता नित्या पृथ्वी परमाणुरूपा निरूपिता तस्यामपि अस्ति इदम् अभावद्वयम् इति नित्य नित्यत्वं आगतम् अनित्या तु घटरूपादि उपयोग अत्र नित्यत्वनित्यत्वस्य विषये अस्ति यदि घटं स्वीकुर्मः चेत् तत्र प्राग्भावं भवति प्रद्वंसवभावे भवति अथवा कुम्भं वयं दृष्टं इति उच्यते यथा वयम् आकाशं स्वीकुर्मः तत्र प्राग् ध्वंसः अपि नास्ति सर्वदा भवति mm. तस्य प्रागभावस्य अभावः अस्ति प्रध्वंस्वभावस्य अभावः अपि अस्ति अभावद्वयमपि अस्ति अतः सः नित्यः भवति अस्ति तदेव अस्ति महोदय तदेव तर्हि तदेव वस्तुतः अत्रापि अनित्यत्वस्य लक्षणं दीयते अनित्यत्वस्य लक्षणं किम् अनित्यत्वस्य प्राग्भाव भवतु तदेव अथवा प्राग्भावप्रतियोगित्वम् अथवा प्रधांसाभावप्रतियोगित्वम् इति अनित्यत्वस्य लक्षणं यत् अनित्यं तस्य प्राग्भाव्यक् तथा एव इदानीं नित्यस्य नित्यत्वस्य लक्षणं किम्प्रतियोगिता अपि न भवति प्रध्वंसभाव प्रतियोगितत्वमपि न भवति अतः एव प्रद्वांस प्रागभावप्रतियोगित्वाभावः अनित्यत्वस्य लक्षणं नित्यत्वस्य लक्षणम् अथवा प्रागभावप्रतियोगिताभावः अपि च प्रध्वांसभावः प्रध्वांसभावप्रतियोगिताभावः नित्यत्वस्य लक्षणम् अथवा लक्षणम् एकं लक्षणं लक्षणद्वयमस्ति तदेव अतः एव इदानीं तत्र केवलं तथा एव इदानीमेतदपि परिभाषिकं वर्तते लक्षणं नाम नित्यं नित्यत्वस्य लक्षणं वर्तते प्राग्भावप्रतियोगिताभावः अपि च अपि च प्राग् अथवा भवतु प्रागभावप्रध्वंसाभावप्रतियोगिताभावः नित्यत्वस्य लक्षणम् अपि च प्राग्भावप्रतियोगित्वं अथवा किं तत् लक्षण प्रथमस्वभावप्रतियोगित्वं च अनिचत्वस्य लक्षणम् अथवा अनित्यत्वं प्रगभावप्रतियोगित्वम् इति तथापि वक्तुं शक्यते अनिच्यत्वं प्रथमं स्वभावप्रतियोगित्वम् इति तदपि वक्तुं न शक्यते हा अपि च आं तथा नाम यत् न यस्य उत्पत्तिः नास्ति यस्य नाशोऽपि नास्ति सः नित्यः अथवा यत् नित्यत्वं तत् उत्पत्ति उत्पत्ति उत्पत्त्यभावे सति अथवा उत्पत्तिशून्यते सति नाशून्यत्वं नाशाभावः इति तत् नित्यत्वम् अपि च अनित्यः यः पदार्थः तस्य उत्पत्तिः अस्ति अपि च नाशः अस्ति अतः एव उत्पत्ति उत्पत्ति उत्पत्पत्तौ सच्याम् नाशः अनिच्यत्वम् अथवा उत्पत्तिशालित्वे सति नाशशालित्वम् इति तथापि लक्षणं दीयते कुत्रचित् ग्रन्थेषु अनिचित्वं सम्यक् अतः एव तथा एव तत्र एतत् एतद् लक्षणम् आश्रित्य नाम नित्यत्वस्य अनित्यत्वस्य च लक्षणम् आश्रित्य तत्र तथा एव विभागः पृथिव्याः विभागः प्रविभागः कृता यतोहि परमाणु परमानुरूपः रूपा पृथिवीया नाम परमाणवः पृथिवी परमाणवः ये तेषाम् उत्पात्तिः नास्ति नाशोऽपि नास्ति नाम तेषां प्रागभाव प्रागभावप्रध्वंसाद्भावप्रतियोगिताभावः वर्तते अतः एव तद्रूप पृथिवी नाम परमानु परमानुरूप पृथिवी सा नित्या परन्तु तत्र प्रपञ्चरूपपृथिवी नाम घटघटघटरूपपृथिवी अथवा भवतु तत्र यः कोऽपि स्थूलरूपपृथिवी तस्य यस्य यस्य रूपस्य यस्य उत्पात्तिः अस्ति विनाशः अपि अस्ति तद्रूपा पृथिवी नी अनित्या एव नाम कार्यकार्यरूपा एव सम्यक् सर्वैः अवगतं वा धन्यवादः महोदय धन्यवादः महोदय सम्यक् प्रतिपदं अयं क्लिष्टः तत्र विषयः तत्र महोदय कृपया पृथिव्यां नित्यरूपत्वेन गन्धम् अस्ति सम्यक् वा आं mm -hmm. um. नित्यरूपेण परन्तु uh, तत् अपि सम्यक् तत् वस्तुतः यदुक्तं भवत्याः तत् सम्यक् परन्तु अत्र किञ्चित् भवतु सर्वप्रथमं पृथि यत् यत् लोके पृथिवीरूपं तस्य सर्वस्य गण्डः वर्तते इति सम्यक् इति एतावत् अवगन्तव्यं परन्तु इदानीं घटं स्वीकुर्मः इदानीम् अनेन अनया दृष्ट्या घटस्यापि तत्र घण्डः अस्ति भवतु अस्ति न वा गन्धः अस्ति भवतु अस्ति न वा यः प्रश्नः इदानीम् अस्ति इति स्वीकुर्मः इदानीम् अत एव सोऽयं घटः पृथिवी अथवा पृथिवी प्रायः इति तथा वक्तुं शक्यते परन्तु इदानीम् इदा अयं गतः एकस्मिन् क्षणे कस्मिंश्चित् क्षणे उत्पन्नः भवति कस्मिंश्चित् क्षणे विनाष्टः भवति प्रध्वंसः अपि ततः एव तस्य प्राग्भावः अस्ति प्रध्वांसः अस्ति इदानीं तस्मिन् गते तस् अथवा गतस्य उत्पत्तेः प्राक् इदानीं गतस्य अभाव अभाव अभावहेतोः गतस्यापि गण्डः नास्ति यतोहि नास्ति एव गतः अपि च घते विनाष्टे सति गतस्य अपि तत्र गन्धे समवेशस्य गन्धस्यापि विनाशः भवति अतः एव एतत् किञ्चित् अन्यत् अस्ति भवतु यद्यपि तत्र एकः अस्ति अंशः तत्र उक्तः यत्र कुत्रापि पृथिवी तत्र सर्वत्र गन्ध गन्धः परन्तु पृथिव्याः साक्षात् एव कश्चन किञ्चिन द्वायरूप्यं वर्तते अस्ति अस्मिन् लो सन्ति अस्मिन् लोके केचन पृथिवीभूताः पदार्थाः ये अनित्याः यथा घटादयः घटापटादयः परन्तु सन्ति अपि अस्मिन् लोके केचन पृथिवीभूताः पृथिवीरूपाः विषयाः ये नित्याः एव सन्ति के इमे इति चेत् तत्र न्यायिके नाम न्यायवैशेषिकशास्त्रे अथवा वैशेषिकैः परन्तु इदानीम् अस्मिन् अस्मिन् तत्र सङ्गते शास्त्रे न्यायवैशेषिकशास्त्रे इमे पदार्थाः परमाणवः इति उच्यन्ते इति स्वीक्रियन्ते इदानीं सर्वेषां सर्वेषां सर्वेषां द्रव्याणाम् अस्ति कश्चन भवतु सर्वेषां चिन्ता परन्तु पृथ्वी पृथिवी आरभ्य किम् आकाशपर्य न आकाशपर्यन्तं न वायुपर्यन्तम् इतिषां द्रव्यानम् अस्ति कश्चन कश्चन असादृशः कश्चन अपि च कश्चन तत्र नयनैः नेत्रैः न अवगम्यमानः अन् अस्वीक्रियमानः अंशः यः परमानुरूपः अंशः इति न्यायिकैः वैशेषि न्यायवैशेषिकैः स्वीक्रियते अयं परमाणुभूतः पृथिवी पृथिवीयांशः सः अह सः नीच्यः अपि वर्तते नाम सञ्ची पृथिवीपरमाणवः सञ्ची अपि अप् परमाणवः जल अथवा आप् परमाणवः तेजः परमाणवः सञ्चे अपि ते सर्वे परमाणवः नीच्याः एव अत एव पृथिव्याः अपि च अपाम् अपि च तेजसः अपि च वायोः वर्तते अंशद्वयम् एकः अंशः लौकिकः अंशः सः अनित्यः एव अस्ति अपि अलौकिकः इति न वक्तव्यः परन्तु कश्चन अत्यन्तं सूक्ष्मभूतः परमानुरूपः अंशः वर्तते सः नित्यः एव इति तथा अत्र विभाजनं क्रियते तत्र गन्धः अत्र गन्धः सर्वदा गन्धः परमाणु परमाणुषु वर्तते पृथिवी परमाणुषु गन्धः अपि घता घट घतेपि वर्तते यत्र यत्र पृथिवी तत्र तत्र गन्धः परन्तु गन् स्वस्यामपि पृथिव्यां द्विधा विभाजनं क्रियते परमाणुरूपा पृथिवी नित्य अन्या तु पृथिवी नाम तत्र विषयाभूतपृथिवी सा तु अनिच्या सम्यक् वा तत्र उपेन्द्रमहोदय सः प्रश्नः आगच्छति सीतलक्ष्मी भगिनी कृपया आं महोदय प्रश्नः अस्ति न जानामि सम्यक् अस्ति वा न तत्र लिखितं प्रागभावप्रतियोगित्वं घटे अतः प्रागभावप्रतियोगित्वं घटे ध्वंसप्रतियोगित्वमपि घटे इति लिखितमस्ति यदा वयं पाठितवन्तः प्रागभावः कुत्र अस्ति इति पृच्छामः चेत् भूतले अस्ति एवं खलु घटः तस्मिन् समये घटः नास्ति ततः पूर्वं वयं पठितवन्तः प्रागभावः कुत्र अस्ति भूतले अस्ति इति भूतले अस्ति भूतले अस्ति चेत् तत्र प्रतियोगिता अस्ति प्रतियोगितायाः अनुयोगिता घटे अस्ति अतः प्रागभाव अनुयोगिता घटे अस्ति एवं न उक्त्वा अत्र लिखितमस्ति प्रागभाव प्रतियोगित्वं घटे अस्ति इति लिखितमस्ति वा इदानीं तथा चिन्तयति भवतु तथापि चिन्तयितुं शक्यते नाम कुत्र अभावः अभाव अभावः साक्षात् इदानीं भूतले इदानीं यस्य घटस्य प्रचस्य अभावः चिन्तयामः गतस्य अभावः कुत्र अस्ति भूतले इदानीं कुत्र अमुम् अभावं स्वीकुर्मः गृह्णीमः कुत्र अमुम् अभावं पश्यामः यत्र सः नाम यत्र भूतले भवतु तत् तत् समीचीनं परन्तु सः इदानीं प्रतियोगित्वं तथा वदति इदानीं यस्य अभावः यस्य अभावः अभावः घटस्य अभावः इति चेत् घटाभावः इति चेत् तर्हि घट अभावस्य प्रतियोगी प्रतियोगी घटाभावस्य प्रतियोगी अभावस्य प्रतियोगी घट तदेव घट अभावस्य प्रतियोगी घटः अत एव प्रतियोगित्वं प्रतियोगि प्रतियोगित्वम् इति अयं धर्मः कुत्र वर्तते घटे तदेव तदेव इदानीम् अत एव सः यस्य यस्य प्राक् नाम यस्य उत्पत्तिः वर्तते सः प्राक् अथवा तस्मिन् स प्राकभावप्रतियोगित्वं वर्तते ओके अपि च यस्य यस्य विनाशः नाम यस्य प्रध्वंसभावः वर्तते तत् अथवा सः प्राक्भावप्रतियोगी क्षण प्रध्वंसभावप्रतियोगी अथवा तस्मिन्सावभावप्रतियोगित्वं ध्वंसभावप्रतियोगित्वं वर्तते अतः एव इदानीं भवतु लाक्षणवाक्यं दीयमानं वर्तते चेत् तर्हि तत्र नित्यत्वस्य अनित्य अनित्यत्वं प्राकभावप्रतियोगित्वम् अथवा ध्वांसभावप्रतियोगित्वम् इति तथा वदामश्चेत् यदा वक्तुं शक्नुमः परन्तु तत्र लौकिकम् अवगमनं कर्तव्यम् इति चेत् केवलम् अनित्यं नाम कः अनित्यः नाम कः यस्य उत्पात्तिः वर्तते ध्वांसः अपि वर्तते यः कोऽपि तादृशधर्मः वर्तते यस्य यस्य कस्मिंश्चित् क्षणे उत्पात्तिः अन्यस्मिन् क्षणे च प्रधांसः विनाशः सः सः पदार्थः अनित्यः यस्य तु उत्पात्तिः नास्ति प्रधांसोऽपि नास्ति यथा आकाशः अपि च आत्मा ईश्वर एतादृशाः पदार्थाः नैके नैके क्रियमाणाः तेषु ते नीत्याः एव सम्यक् तर्हि प्रश्नः अन्यः प्रश्नः कस्यचित् नास्ति चेत् तर्हि उपेन्द्रोष्ठया नीलाम्बगिनी उपसुष्पा शीतलक्ष्मी भगिनी भगिनी एव पततु अग्रे अस्ति गन्धवती पृथिवी गन्धवत्वं पृथिवी लक्षणम् इत्यनयोः भेदनिरूपण उभयविधपृथिव्याः गन्धरूपस्य लक्षणस्य च अस्ति आधाराधेयभाव आधार तथा जलस्थले उपरि उपरि उपरि उपरि तत् पठितवन्तः न पचितम् एव तथा जलस्थले सिद्धलक्ष्मीभगिनी क्षम्यतां क्षमता मया चिन्ता मास्तु भगिनि चिन्ता मास्तु सिद्धलक्ष्मीभगिनी किमपि न श्रूयते तत्र आरामसारं समीचीनमासीत् तदनन्तरं तत्र यदापि भगिनी म्यूट् मध्ये नास्ति तथापि विद्वानिः न भगिनी न श्रूयते कदाचित् गत्वा पुनरेकवारम् आगच्छतु इति मन्ये न न श्रूयते किं तत् तर्हि एकं परिचयं सुनील् महोदय पतति वा सुनील् महोदय तत्र दृश्यते न ओके तर्हि परन्तु सः वक्तुमिच्छति तर्हि नीलां भगिनि पततु वा गन्धवती पृथ्वी गन्धत्वं पृथ्व्याः लक्षणं इत्यन्योः भेदनिरूपणम् उभयविधपृथ्व्याः गन्धरूपस्य लक्षणस्य च अस्ति आधे आधार आदेयभावः तथा जलस्थले शीतस्पर्शः अपां लक्षणम् इति अत्रापि शीतस्पर्शः आदेयः आपोजलम् अधिकरणम् शीतस्पर्शे आदेयता तन्निरूपित अधिकरणता जले अधिकरणताश्रयः जलम् आश्रयत्वं जले अस्ति इति सम समन्वयः लक्षणस्य लक्ष्य लक्ष्ये विद्यमानत्वं यत् वर्णयते सः सह... न्वयः इति उच्यते अत्र गन्धवती पृथ्वी अपि च गन्ध गन्धत्वं पृथ्व्याः लक्षणं द्वयोर्मध्ये भेदनिरूपणम् इति अत्र शिक्षणमस्ति उभयभेद पृथ्व्याः गन्धरूपस्य लक्षणस्य च अस्ति आदे आधार आदेयभावः उभयविधपृथव्याः गन्धरूपस्य लक्षणस्य उभयविधा पृथिव्या नाम उभयविधविधा किं गन्धवती पृथिवी गन्धत्वं पृथ्व्या पृथ्वी नाम तत्र नित्या अनित्या च इति मन्ये उभयविद् पृथ्व्याः गन्धरूपस्य लक्षणं लक्षणस्य च अस्ति आधार आदेयभावः तर्हि आधारः कः आदेयः किम् आधारः अस्ति पृथ्वीय आदे... गन्धव गन्धम् गन्धरूपं लक्षणम् अथवा गन्धः तेषां मध्ये आधारः भावः तथा जलस्थले शीतस्पर्शः अपां लक्षणम् इति अत्रापि शीतस्पर्शः आदेय आपो जलम् अधिकरणं mm -hmm. सो यथा पृथ्व्याः पृथ्वी गन्तवती तथा जलस्थले शीत इति शीतस्पर्शः इति तस्य लक्षणमस्ति जलस्य लक्षणं जलस्थले अपां लक्षणम् इति अत्रापि शीतस्पर्शः आधेयः जलम् इति अधिकरणं सो अत्रापि यथा पृथ्वी पृथ्वी नि पृथ्वी Uh, uh, आधारः भवति गन्ध गन्धत्वम् इति धर्मः तत्र आदेयः तथापि अत्र जलस्थले शीतस्पर्शः आदेयः जलम् इति अधिकरणं शीतरणं भवतु तत्र भवतु कदाचित् अस्माभिः पुनरेकवारं तत्र किञ्चित् मन्दं पतनीयं परन्तु इदानीं क्षम्यतां uh, पृथिवी लक्ष्यम् अथवा पृथिवी अधारः अधेयं पदार्थवारं किं uh, गन्धं गन्धवती तदेव गन्धत्वम् इति उक्तवती गन्धत्वं गन्धे वर्तते सम्यक् गन्ध अथवा गन्धवत्वं तथापि वक्तुं शक्यते तद् तत् अग्रे कदाचित् पश्यामः गन्धवत् अवसर अग्रे एव अयं विषयः आगच्छति सम्यक् ओके इदानीं गन्धः पृथिव्याः पृथिवी पृथिवी आधारः गन्धः अध्ययः सम्यक् अपां तत्र किं भवति शीतस्पर्शे अधीयत तन्निरूपित अधिकरणता जले सम्यक् जले अधिकरणता अस्ति शीतस्पर्शे तु आधीयत अधिक्रयः जलम् अस्तु अधिकरणत अधिकरणतायाः आश्रयः जले वर्तते अस्तु अधिकरताश्रय आश्रयत्वं जले अस्ति इति समन्वयः नूतनशब्दः अस्ति समन्वयः सो so, अधिकरणताश्रयत्वं जले अस्ति इति समन्वयः लक्षणस्य लक्ष्ये लक्षणस्य लक्ष्ये विद्यमानत्वं यत् वर्णयते सः समन्वयं समन्वयः इति उच्यते लक्षणस्य लक्ष्ये सो लक्ष्ये इति इति मन्ये पदार्थे लक्षणम् अस्ति विशेषलक्षणम् इति यः अस्ति लक्षस्य लक्ष्ये विद्यमानत्वं यत् वर्णयति सः समन्वयः सो यथा शासन इति लक्षणं गोषु वर्तते सो तत्र शासन वर्णयते शासन इति समन्वयम् इति उच्यते वा महोदय समन्वयः स्वयमेव यत् वाक्यं लक्षणस्य लक्ष्ये विद्यमानत्वं यत् येन वर्ण्यते अथवा यत् यत् किञ्चित् लक्षणस्य अथवा यत् किञ्चित् वाक्यं यत् यत् जमानतं यत् वर्ण्यते सः समा समन्वयः इति उच्यते समन्वयः किं किं तत्र किं वदामः समन्वयः समन्वयः कोर्डिनेशन् तथा भवतु कोर्डिनेशन् ओके तथा वक्तुं शक्नुमः कोर्डिनेशन् इदानीं यत् यत् अत्र समन्वयः अस्ति नाम ज जकरणताश्रयत्वं जले अस्ति तत्र किं भोः तत्र उदाहरणमासीत् अधिकारनताश्रयः जलम् अधिकारणतताश्रयत्वं जले अस्ति इति एतत् सर्वं एतत् सङ्गच्छते अतः एव इति समन्वयः अस्य अस्य शीतस्पार्श तत्र शीतस्पार्श अपं लक्षणम् इति अस्य तत्र यत् निरूपणं क्रियते सः निरूपणं समन्वयः इति उच्यते भवतु सः अग्रे पुनरेकवारं तत्र एतत् इदानीं तत्र केवलं प्रथमवारम् एतत् पदम् अत्र प्रयुक्तम् अग्रे सः किञ्चित् किञ्चित् अधिकं निरूपयति अनन्तरं यदि एतावता स्पष्टं न तर्हि अग्रे किञ्चित् समन्वयः इति पदार्थे पश्यामः एतावता भवतु किञ्चित् अवगतामिति मन्ये समन्वयः नाम किम् इदानीं तथा एव इदानीं गन्धवची पृथिवी इति लक्षणम् अस्ति इदानीम् एतत् लक्षणं किमर्थं समीचीनम् इति चेत् तर्हि तत्र पृथिव्याम् अधिकारः अधिकार अधिकरणत्वं वर्तते गन्धे तु अधेयता वर्तते तत्तु अधिक गन्धे अपि च तथा अत एव तत्र अत एव गन्धनिष्ठादिकरणता निरूपित निरूपित गन्धनिष्ठादे तथा निरूपितादिकरणश्रयः जले अस्ति एव अत एव अस्य लक्षणः लक्षणस्य लक्षणवाक्यस्य अस्ति एव समन्वयः अयम् अयम् इदं लक्षणं समीचीनम् इति तथा भगिनि अहम् इदानीम् अवगच्छामि अत्र इदानीं किञ्चित् अधिकानि उदाहरणानि ज्ञात्वा एतत् अयम् अयम् अयं शब्दः अवगम्यते अग्रे तस्य उदाहरणानि भविष्यन्ति आचार्यजी हियर् लक्षणस्य लक्ष्ये विद्यमानं यत् यत् वाक्यं वर्ण्यते सः वाक्यं समन्वयवाक्यम् इति वा न तत्र अहं तथा अपि प्राक् चिन्तितवान् परन्तु तथा सः ये न वर्ण्यते च सः वक्तुं केवलं समन्वयः इस् द स्टेट्मेण्ट् इस् काल् समन्वय न न समन्वय केवलं तत्र लक्षणस्य लक्ष्ये लक्षणस्य समन्वयः अस्ति इदानीं यस्य लक्षण लक्षणस्य लक्ष्ये विद्यमानत्वं वर्तते एव वर्तते एव अतः एव तयोः अत एव तस्य समन्वयः अस्ति इति तथा वदामः समन्वयः केवलं भवतु इदानीं सः किञ्चित् तत्र भवतु अहम् अन्यत् लक्षणं दृष्ट्वा शीतस्पर्श लक्षणम् अपाम् अस्ति नीतस्पर्शाः अपां लक्षणम् अस्ति यतोहि तत्र कश्चन यतोहि शीतस्पर्शाः शीतस्पर्शाः भवतु सर्वासु अप्सु वर्तन्ते अत एव अस्य लक्षणस्य अस्ति समन्वयः अस्य लक्षणस्य अस्ति भवतु समीचीनता तथापि वक्तुं शक्यते समीचीनता अस्य लक्षणस्य अस्ति समन्वयः इदं लक्षणं ओके अहं किं वदामि अत्र अग्रे पृथ्वी गन्धवती अस्ति तथैव एतत् इदानीं किञ्चित् अप्ट्रक् वर्तते तत्र अग्रे अनेकानि अनेकानि उदाहरणानि दीयन्ते समन्वयस्य समन्वय इति पदस्य प्रयोगस्य प्रयोगस्य तत्र तानि उदाहरणानि दृष्ट्वा अवगच्छामः समन्वयः नाम कि तत्र यथा नरसिंहमहोदय कोर्जिनेषन् इदानीं लक्षणवाक्यस्य कोर्जिनेशन् वर्तते तत् इदानीं लक्षणं लक्ष्ये लक्ष्ये विज्यते अत तस्य समन्वयः वर्तते यत् यत् वर्ण्यते यस्मात् यस्मात् तत् तथा वा गच्छामः यस्मात् लक्षणस्य लक्ष्यैः यमानत्वं वर्ण्यते यस्मात् तस्मात् न स भवतु चिन् चिन्तयित्वा तस्मात् न क्षम्यतां भवतु चिन्तयित्वा अहम् इदानीं तत्र भवतु प्राक् सर्वं स्पष्टमिति चिन्तितवान् इदानीं लक्ष्ये विद्यमानत्वं यत् वर्ण्यते सः समन्वयः इति उच्यते लक्षणस्य लक्ष्ये तत् तदेव महोदय शीत लक्षणं तद् तद् लक्षणस्य लक्ष्ये विद्यमानत्वं तदेव यस्य गन्धवती पृथ्वी कथं क तद् लक्षणस्य लक्ष्ये कथम् आधाराधेयभावः वर्ण्यते तदेव एतद् अपि इति सामान्यं न सामान्य नास्ति question is um, similar um tadapi now some model kind thing there the model ek it is samewise one type of adara de bhav only ah tadapi tadapi chinda am tadapi samara ide adara de bhava yadasti tat ah samdefinishana is uh, samanvaya hacharjee um. okay. if we take coordination as a meaning for samanvaya ah uh, mm -hmm. the the lak uh, the lakshanam okay. uh, will help uh, the lakshya mm. mutually help together that mutual help together to exist to be unique is called as samanvayam अनुवादः कर्तव्यः चेत् तर्हि डेथ् द लक्षण इस् डिस्क्रैब्जिस्टिङ्ग् इन् द इन् द लक्ष्य दिस् कोल्ड् समन्वयः कुत्रचित् इदानीं मम तत्र शिरसि कश्चन संस क्षम्यतां तद्धिताभावेन Uh, कथनं सम्यक् वा तद्वितभाव तद्वितभावं मातृरूपेण घटः भवति घटस्य मातृरूपेण पृथ्वी भवति तत्कारणेन स्वजाति इति अपि कथनं सम्यक् अस्ति वा अपचं मीन्स् जनरेशन् फादर् टु प्रचयस्य अर्थः इव दीयते अत्र सम्यक् अस्ति वा नास्ति वा समन्वयः इति पदस्य एव अर्थः वस्तुतः तत्र किं तत्र एतत् वाक्यं पतु चिन्तयित्वा अग्रिमे पात्रे पुनरेकवारं परिशीलनं पश्यामः किञ्चित् इदानीं सामान्यतो स्पष्टम् इति भाति असत्यभावम् इति मन्ये परन्तु अत्र किम् गुणः लक्षणमपि लक्ष्मणमपि अपक्षेन भवति एव हा तदेव लक्ष्मणस्य लक्षे तदेव समन्वयः रिटिलाण्डर्डिङ्ग्लिश् का तदेव तदेव तथा एव सः अर्थः इदानीं तत्र अवगन्तव्यः अस्मिन् अर्थे एव समन्वयः इति पदम् तत्र न्याये प्रयुज्यते अस्य वाक्यस्य इदानीं कथं समन्वयः कर्तव्यः अस्य वाक्यस्य इदानीम् अहं किञ्चित् इदानीं तत्र सन्दिग्धः अस्मि अतः एव अत्र स्थगे परन्तु भवतु चिन्तयित्वा पुनर्कवारम् अग्रिमे पा अग्रिमे पात्रे अत्र एव आरभामहे अहं पुनर्कवारं नास्तिकत्व आस्तिकत्वभेद अत्रापि दृश्यते समन्वयः भवतु उपयोगेन मन्यते अहं मन्यते सम्बन्ध अपि अस्ति एव स्वल्पीन् किञ्चित् योजयामः तर्हि स्पष्टं भवति आम् भवतः तथा एव समन्वयः इति अस्य अर्थः भवति भवतु तत्र समीचीनता अथवा सङ्गचिः सङ्गचिः इति समन्वयस्य अन्यः पर्यायः सङ्गतिः इदानीम् अस्य अर्थस्य अस्य वाक्यस्य कथां सङ्गचिः अथवा अस्य वार्ता अस्य किं किं वदामि अस्य तत्र लक्षणवाक्यस्य कथं समन्वयः कर्तव्यः कथं सङ्गचिः कर् करणीया इति इदानीं अतः एव समन्वयः नाम किम् इति तत्र समान्यतो तत्र प्रश्नमस्ति परन्तु अस्य अर्थस्य कथं समन्वयः कथम् अन्वयः कर्तव्यः अहं चिन्तयामि लक्षणस्य लक्ष्ये विद्यमानत्वं यत् वर्णयति सः समन्वयः इति उच्यते अस्मिन् लक्ष्यः इति पदार्थः वयं पदार्थः कथं जानीमः तत् विशिष्टलक्षणम् अस्ति सो सः लक्षणस्य लक्ष्ये विद्यमानत्वं यद् वर्णीयते सो लक्ष्य लक्ष्य कथं वर्णीयते लक्षणेन एव वर्णीयते सो लक्षण लक्ष्ये विद्यमानत्वं यत् विशिष्टलक्षणम् अस्ति येन लक्ष्यः वर्णीयते सः समन्वयः इति उच्यते तद् इदानीं भगिनि अपि येन वर्ण्यते इति उक्तवती येन वर्ण्यते तत्र स्यात् इति चेत् लक्षणेन विशिष्टमानत्वं वर्ण्यते तदेव समन्वयः इति तथा किञ्चित् अवगन्तु लक्षणं कुत्र अस्ति लक्षणं लक्ष्ये एव विद्यमानः लक्षणं केवलं लक्ष्ये अस्ति भवतु समन्वयः इदानीं समन्वयः तथा समन्वयः यतो उक्तं समन्वयपदार्थस्य अन्यः पर्यायः वर्तते सङ्गचिः नाम भवतु समीचीनता अतः एव यत् लक्षणस्य लक्ष्ये विद्यमानत्वं वर्ण वर्ण्यते सः समन्वयः अतः एव यदि गण्डवची पृथिवी इति इदानीम् अस्य अस्य लक्षणवाक्यस्य समन्वयः अस्ति तथा वदामः चेत् अनेन किम् अवगम्यते इदं लक्षणं लक्ष्ये विद्यते एव नाम गन् गन्धः लक्षणभूतः गन्धः पृथिव्यां वर्तते इति इति करणात् गन्धवचि पृथिवी इति अस्य वाक्यस्य समन्वयः अस्ति अथवा सङ्गचिः अस्ति अतः एव यत् लक्षणस्य लक्ष्ये विद्यमानत्वं वर्तते लक्षणस्य लक्ष्ये विद्यमानत्वम् एव वर्तते सः नाम लक्ष् लक्षणस्य लक्ष्ये विद्यमानत्वं लक्षणस्य लक्ष्ये वास्तविकं विद्यमानत्वं यत् वर्ण्यते सः समन्वयः इति तथा अवगच्छामि इदानीं परन्तु न तु कृपया किञ्चित् चिन्तयित्वा पुनरेकवारं पश्यामः सम्यक् वा अस्तु क्षम्यताम् अत्रापि मम इदानीं तत्र ओके तर्हि अग्रिमे अग्रिमे अग्रिमे सप्ताहे पुनरेकवारम् अत्र अतः एव आरभाम धन्यवादः नमस्कारः